रामस्तुतिः श्रीराम राम, राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानमे वै देहीसहितं सुरद्रुमतले है मे महामण्टपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् अग्रे वाचयति प्रभञ्जनसुते तत्त्वम् मुनिभ्यः परम् व्याख्यान्तम् भरतादिभिः परिवृतम् रामं भजे श्यामलम् रामम् देवम् रघुकुलपतिम् रामचन्द्रम् भजेऽहम् कृष्णम् देवं यदुकुलमणिम् वासुदेवं नमामि नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकत्मजायै नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः वेदवेदान्तवेद्याय मेघश्यामलमूर्तये पुंसां मोहनरूपाय श्लोकाय श्री समस्त श्रीरामचंद्रश्रितिजा समस्तकल्याणगुणारा सीता मुखाबोच चरीको निरंतर मंगलमातन आपदापर्तापा लोकाभिरामं श्रीराम भूयो भूयो नमां यहम् आर्तानामार्तिहन्तारं भीतानां भीतिनाशनं द्विषतां कालदण्डं तं रामचन्द्रं नमां्यहम् अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ सन्नद्धः कवची खड्गी चापबाणधरो युवा गच्छन् मामग्रतो नित्यम् रामः पातु स लक्ष्मणः नमः कोदण्डहस्ताय सन्धिकृतशराय च खण्डिताखिलदैत्याय रामायापन्निवारिणे